नारायणीयं दशकं सेवेण्टि टु मीटर् वसन्ततिलकं कंसोधनारदगिराव्रजवासिनं त्वामाकर्ण्यदीर्णहृदयसखि गान्धिनेयम् आहूय कार्मुखमखचलदो भवन्तमानेदुमे न महिनो दहिनाथशायिन् अक्रूर एष भवदङ्घ्रि परश्चिराय त्वद्दर्शनाक्षममनाः क्षुदिपालभीत्या तस्याज्ञयैव पुनरीक्षितुमुद्यतस्त्वामानन्दभारमधिभूरितरं बभार सोऽयं रथेन सुहृदि भवदो निवासम् गच्छन्मनो रथगणांस्त्वयि धार्यमाणान् आस्वादयन्मुहुरपाय भयेन दैवं सम्प्रार्थयन् पथि न किञ्चिदपि व्यजानात् द्रक्ष्यामि वेदशदगीदगतिं पुमांसम् सम्प्रक्ष्यामि किं स्विदभिनाम परिष्वजेयं किम् वक्ष्यते सकलु माम् कोनु क्वनु वीक्षितस्यादिद्धं निनायस भवन्मयमेव मार्गं भूयक्रमादभिविशन् भवदङ्घ्रिपूदं वृन्दावनं हरविरिञ्जसुराभिवन्द्यम् आनन्दमग्न इव इवप्रमोहे इव प्रमोहे किं किं दशान्तरमवापन एवं तु भक्तितरला विरलाः परात्मन सायं सगोपभवनानि भवच्चरित्रगीता मृदप्रसृतकर्णरसायनानि पश्यन् प्रमोदसरिदेव किलोह्यमानो गच्छन् भवद्भवनसन्निधिमन्वयासीत् तावद्द वदर्श पशुदोह विलोकलोलं पशुदोहविलोकलोलं भक्तोत्तमागतिमिव प्रतिपालयन्तं भूमन्भवन्दमयमग्रजवन्दमन्दर्ब्रह्मानुभूतिरससिन्धुमिवोद्वमन्दं सायन्दनाप्लवविशेषविविक्तगात्रौ द्वौ पीतनीलरुचिराम्बरलोभनीयौ नाधिप्रपञ्चधृतभूषणचारुवेशौ मन्दस्मितार्द्रवदनौ स युवां ददर्श दूराद्रथात् समवरुह्य न मन्दमेनमुद्धाप्य भक्तकुलमौलि मधोपगूहन् हर्षान्मिताक्षरगिरा कुशलानुयोगी पाणिं प्रगृह्य सबलोध गृहं निनेध नन्देन सागममितादरमर्चयित्वा तं यादवं तदुदितां निशमय्य वार्तां गोपेषु भूपदि निदेशकथां निवेद्य नाना कथाभिरिहतेन निशामनैषीः चन्द्रागृहे किमुद चन्द्रभगा गृहेऽनु राधागृहेऽनुभवने किमुमैत्रविन्दे धूर्तो विलम्बद इति सर्वत्र गोविन्दनाम Go Vinda, Go Vinda.